हरि श्री श्रीसीतारामचन्द्राभ्य नमः अथ श्रीमद्वाल्मीकि रामायणे युद्धकाण्डे एकविंश सर्गः श्रीरामस्य समुद्रतटे कुशानास्तीर्य दिनत्रयं यावत् उपवेशनं ततोपि स्वात्मानम् अदर्शयत् समुद्रस्य उपरि कुपितेन श्रीरामेण बाणप्रहारेण तस्य विक्षोभणम् ततः भानास्तीर्य राघव अञ्जलिम् प्रामुख कृत्वा प्रतिशिष्ये महोदधे बाहुं भुजङ्ग भोगाभम् उपधाय रिसूदन दातरूपमये चैव भूषणे भूषितम् पुरा मणै काञ्चनकेऊर् मुक्ता प्रवर भूषणै भुजै परम नारीणाम् अभिमृष्टम् नैकधा चन्दना गुरुभिश्चैव पुरस्तादभिसेवितम् बालसूर्य प्रकाशे च चन्दनैः उपशोभितम् शयने चोत्तमाङ्गेन सीताया शोभितम् पुरा तक्षकस्यैव सम्भोगम् गङ्गाजलनिषेवितम् संयुगे युग सङ्काशम् शत्रूणाम् शोकवर्धनम् सुहृदाम् नन्दनम् दीर्घम् सागरान्तव्यपाश्रयम् अस्यता च जागात सव्यम् जाघात विहतम् दक्षिणो दक्षिणम् बाहुम् महापरिह सन्निभम् गोसहस्रप्रदापारम् व्युपधाय भुजम् महेत् अद्य मे तरणं सागरस्य वा इति रामा धृतिम् कृत्वा महाबाहू महोदधिम् अधिशिष्ये च विधिवत् प्रयतो नियतो मुनिः तस्य रामस सुप्तस्य कुशास्तीर्णे महीतले नियमालप्रमदश्च निशास्त्रीस्त्रोऽभिजग्मतुः स श्रीरात्रोषितस्तत्र न यज्ञो धर्मवत्सलः उपासत तदा राम सागरम् नचे न च दर्शयते रूपम् मन्दो रामस्य सागरः प्रयतेनापि रामेण यथार्हम् अभिपूजितः समुद्रस्य तथा क्रुद्धौ रामो रक्तान्तलोचनः समीपस्थम् वाचेरम् लक्ष्मणम् शुभ लक्षणम् समुद्रस्य न दर्शयति अश्वयम् प्रशमश्च क्षमा चैव प्रियवादिता असामर्थ्य फलाह्येते निर्गुणेषु सताम् गुणः त्मा प्रशंसिनम् दुष्टम् दुष्टम् विपरि धावकम् सर्वत्रोत्कृष्टदण्डम् च लोकसत्कुरुते नरम् न साम्ना शक्यते कीर्ति न साम्ना शक्यते यशः प्राप्तुम् लक्ष्मणलोकेऽस्मिन् जयोवारणमूर्धने अद्य मद्बाणनिर्भग्नैः मकरै मकरालयम् निरुद्धे तोयम् सौमित्रे प्लवद्भिः पश्य सर्वतः भोगिनाम् पश्य भोगानि मया भिन्नानि लक्ष्मण महाभोगानिमत्स्यानाम् करीणाम् च करान्यः स शङ्खशुक्तिकाजालम् समेना मकरम् तथा अद्य युद्धेन महता समुद्रं परिशोषये क्षमयाहि समायोक्तम् मामयम् मकरालयः असमर्थम् विजानाति धिक्ष माम् इदृशे जने न दर्शयति ताम् सागरो रूपमात्मनह चापम् आनय मित्रे क्षरा चाशीविशोभमान् समुद्रम् शोषयिष्यामि पभ्याम् यान्तुम् अध्याक्षोभ्यम् अपि क्रुद्ध शोभयिष्यामि सागरम् लीलासु कृतमर्यादम् सहस्रोर्मि समाकुलम् निर्मर्यादम् करिष्यामि सायकै वरुणालयम् महार्णवम् शोभयिष्ये मा एवम् उक्त्वा धनुष्पाणिः क्रोधविस्फारि बभूव रामो दुर्धर्षो युगान्ताग्निवज् ज्वलन् सम्पीड्य च धनुर्घोरम् कम्पयित्वा शरे जगत् मुमोच विशिखानुग्रान् वज्रान्व शतक्रतुः ते ज्वलन्तो महावेग तेजसा सायकोत्तमः प्रविशन्ति समुद्रस्य जलम् वित्रस्तपन्नम् य वेग समुद्रस्य समीनम् न करो महान् स बभूव महाघोर समारूत रवस्तथा महोर्मि माला विततः शङ्ख शुक्ति समावृतः स धूमः परिवृतोर्मि ससा सि नहो शानवाच महवीर पाताल तलवासीन ऊर्म सिंधुराज से नक्र मकर तथा विंध्या मंदर संकाश समुथेत सहस्रश आघूर्णी तरंगा घर संभ्रतो राक्षस महाग्रह स घोषो तत स्तु तम् राघवमुग्रुवेगम् प्रकश्यमाणम् धनुरप्रमेयम् सौमित्रीरुत्पत्त्य विनेश्व सन्तम् मामेति चोक्त्वा धनुरालम्बे एतद्विनापि युदधेतवाद्य सम्पत्स्यते वीरतमस्य कार्यम् भवद्विधाय क्रोधवशम् न दीर्घम् भवान् पश्यतु साधूरुक्तम् अन्तर्हितैश्चापि तथान्तरिक्षे ब्रह्मा शिभिश्चैव सुरशिभिश्च शब्दकृत कश्चमिति ब्रुवद्भिः वामेति चोक्त्वा महता स्वरेण इत्याशी श्रीमद् रामायणे युद्धकाण्डे एकविञ्च सर्गः श्रीसीतारामचन्द्रार्पणमस्तु